अग्निद्रा देवानामग्निर्वेदमर्थानामबीत्यग्निश्रद्रव्यो न अग्निर्वाप्यो स्वाहुतो न वीयसानमञ्जके समे अग्निर्देवेषु सुतया स्वाहा मुदा काव्या पुरुविश्वम् भूमे भविष्यति देवो देवेषु यज्ञियो नभन्तामन्यकेतमे यो अग्निस्वतारुष्रुतो विश्वे सिन्धुरु समागन्मत्रपश्चम्बन् धातुरुदस्युगन्दा मम अग्निम् यज्ञेषु पूज्यम् नभन्तामन्यकेतमे अग्निस्त्रीणि त्रिधातो कविः सीङ्ग्रेकादशाङ्गिहयक्षश्च विप्रजश्च नो विप्रो दूरः परिष्कृतो नभम्नो अग्न आयुषम् देवेषु स्वरेकरसि परिश्रुतःपदीयम् विश्वसे तपो नभम् कामन्यकेश मे इन्द्राग्निवांशुनः सखम् दादासचोदयम् येन दृढा समस्वाचित्सायि भीमह्यग्निर्वने भवदयिन्नभन् कामन्यकेश मे महेशमिष्ठम् धृणान्दरम् स न कदाचित् मदा मेधसातयेन भामन्यके स मेमध्यम्भराणामिन्द्राग्नीक्षितः ौ कवित्वमस्मृतम् राधभम् दामन्यकेश मेघतवति राज्ञी यशसा गिरा यजोर्विश्वामिनम् जगदियम् जौ पृथिवीमायू उपस्थिते बिभृतोपसुरभन्दाकेश मे ब्रह्माणिनभागवलिन्द्रा विरज्यता सप्तमुद्धवन्नवम् जिह्मवायीधा नमोज सानभन्तामन्येश मे अपि मृष्टपुरा नवनधृतजेलुष्णम्भय न्द्रेणभङ्गामन्यके समे यदिश्वयम् एकला गिरा अस्माके भृभिर्भयम् दा स्यामा वृतन्यतोष्यतोऽभृन्तामन्यके समे ेदामो दिवपद्युभिः इन्द्राज्ञातमुण्डताम् न भामञ्जये स मे पूर्वेष्ट इन्द्रो वा मातर पूर्वीरुतप्रशस्तयः सूनो हिन्वस्य हरिवः स्वो वीरस्यातृजोन्तमन्यकेशामे सीता सुक्तिभिश्वम् सत्पानृग् उदो न चेत्यभोजसा सुष्णस्याण्डानि सर्वतीरतो न भामन्यकेशामे ंसी सीता स्वध्वरम् सत्यम् सत्त्वानमृत्विगम् बुदो नित्यमोहत आण्डा सुष्णः समेत च जैस्वर्वतीरपोमन्यके स मे देवेन्द्राग्निभ्याम् पि रुन्नवीयो मन्धाग्रुवदम् गिरस्वदावाजि युधातु नासन्मानावारमस्मान् वयम् स्यादावदायोरयीणा अस्मावोषप्रभूतजयरूनायमरुद्भ्योर्चाभिदुष्टा अस्मा देभ्यः चोधीकामानोरासो नाजीवरक्षदिनभम् तामञ्जये स मे र्यः सिन्धो नामो दयेक्षपरिोश्रो माजया दधेश्वदर्शनः स्य मे नीननुव्रतमुद्रो आवर्धयन्नभन्दामन्यकेश मे यः करुभो निधारयः पृथिव्यामधीदर्शनः समादाः पूज्यम् पदम् तद्वरुणश्चि गोपायिवेर्यो नभन्दामन्यकेश मे धत्ता भुवनाम् च वुस्राणा आवेदनामानिगुह्याः सः काम्याः जौरीवपुष्यदिनभन्दा मन्यके समे यस्मिन् विश्वादिकाव्याः चक्रेनाभीरिवसृता ऋतम् ज्योतिष पर्यत वृतेगावो न संयुते युजे अश्वान् मयुक्षत नभन्तामञ्जके समे य आश्व विश्वा दातान्येषाम् परिहामाय नृषद्वरुणस्य पुरोगजे विश्वे देवा अनुव्रतम् नभन्तामञ्जके स मे स मुद्रो आदीत्य सुरोद्यामीपरोहीयाश्रयजोद्धे स माया पदा श्रीना कमारोहन् न भामन्यके स मे यस्य श्वेतावीरक्षमा तिस्रो भूमिरीक्षितः त्रिलुरुधाराणि वक्त्रुर्वरुमस्य ध्रुवम् सदस्य सप्तानामीरज्जयभम् दामन्यकेशमे यः श्वेतार्णयश्चक्रे कृष्णाव्रता सह भूजम् मेयस्पम्भेन विरोदी यो न द्यामदा भ्राद्यावसूरो विश्ववेदामि पृथिव्याः आमी यद्विश्वानि सम्राड्विश्वेतानि वरुणस्य व्रतानि एवामन्दस्वरुणम् बृहन्तम् नमस्या धीयामृतस्य त्रिपरोदम् सत्पादम् वा पृथिवी उपस्थे इमाम् धियम् शिक्षमाणस्य देवकृक्षम् वरुणसंसीषाधि ययादिविश्वादुलिकादरे मुधर्माणमधिनामम् गुहेम णो अश्विनादिभिर्वित्राः अजुच्योः न सत्यासो मा पीतजेन भन्तामन्यकेशामे यथा वार्तृरश्विनागीर्भिर्वित्रो अजो भवेत् न सत्यासो मा पीतजेन भन्तामन्यकेशमे ये मह्वभूतजे यथाहूपन्त मे धीराः सत्या सोमपीतजेन भन्तामन्यके समे इमे विप्रस्य वेदसोऽग्नेरस्त्रिगयज्वनः गिरस्तोमासयीर अस्मै ते प्रतिहर्यतेजालवेदो विदर्शने ग्नेजनाः विदृष्टयम् आरोगादिपगेन दिग्मा अग्नेतपद्विषाः तद्धिर्वनाः निवत्सति रजो धूमयेत भोभातजो ताुपत्यपि इदम् देवृतगग्नजाः देवेत्येवृथगग्नयिद्धा तत्समदृक्ष कुशसाः विवहेतवाः कृष्णानदाम्सिमृजाने जातवे दतः अग्निरुजद्रोदशिक्षमिवोरधीर्पत्रि पुनर्यन्तरुणीरपि जिह्वाभिरहनम् नाम गच्छिरा यञ्जनाभवन् अग्निर्वणेषु रोचते अक्षज्ञेसधिष्ठीरनुरुध्यसेभे सञ्जायसे पुनः उद ज्ञेलधीरो चाहूतम् बिन्धानम् जुह्वोमुखे क्षान्नाहाय वधान्नाहाय सोमपृष्ठाय वेधसेः सोमैर्विधेवाग्नः उदद्धामः सर्वरेण्यक्रतो अग्ने समिद्धी भीमहे उदत्त्वा भृगवच्छूर्य उदाङ्गिरस्वद्ध वामहे म् अग्निना विद्रावित्रे न सदा सखा सख्या समिध्यसे स जब त्वम् विप्रायदायुषे रयिन्दे हि सहसृणम् अग्ने वीरवधीविषम् दरोही सहस्रतरोहि वश्व स्तो मे पुनत्वाग्ने मम सुय प्रतिहर्यते योष्ठम् रामजिवास सुभ्यम् ताङ्गिरस्तमपि श्वा सुक्ष्मयः पृथग् अग्नेकामा जयेन्द्रिरे अग्निम् देभन्म नेषिणो मेधीरासोऽपिताः अद्मसत्याजहि म् वामग्नेषु वायिनम् तम्भाः अग्ने अध्वरम् पर्नि मोदारते पुरुत्रा हि सुरङ्गो विश्वाहप्रभुः समत्सुत्वाहवामहे रमेश्वर आहूतो द्विर्विभ्राजनिघृतैः इमम् न श्रुमबद्धवम् जातवे द्वाभयम् गवामने शृण्वन्द्वम् जातवेशाः विशाम्राजा नमद्भूतमध्यक्षम् धर्मणामिमम् अग्निमेशमुस्रवत् अग्निम् विश्वायुर्वेपसमर्जन्नभाजिनम् हितम् सप्तिम् न वा जयामसि हम् रक्षाम् विश्वः अग्ने दिग्नेना दीदिः यम् द्वा जना स्वयम् धने मा विश्वरङ्गिरस्तम आग्ने सबोधिमेव चाह यदग्नेदिरा अस्य वा सहस्कृता तम् द्वागेर्विर्हवामहे ृसगान् वन्द्ये तेघे लग्ने स्वाजो विश्वादिरक्षसः परम् तस्याम दुर्गः आद्यम् मन्त्रम् भूरुप्रियम् क्षीरम् वामकरसोषम् हृदयम् मन्त्रे भीरिमहे सत्वमग्ने विभावम्बसु समिधाद्यो वस्तु स हृदैर्बोधयदातिथिम् आस्विन्हव्यायुहोदना ोमम् जुडस्वेवनः अग्निम् दूतम् पुरोदेव ब्रुवे देवान् आसादयाधिया उत्ते बृहन्तो अत्रयः स्वमिधानस्य जीरिवः अग्ने शुक्रा ो ओ, ओ, ओ, ओ मम घृताजेर्यन्तु हर्यत अग्ने हव्याजुरस्वनः मन्त्रम् होतारमृत्यम् चित्रभावम् विभावम् होतारमेभ्यम् द्युष्टभग्निम् अविक्रातुम् अध्वराणामभिश्रियम् जगाणो अङ्गिरस्तमे माहव्यान्या रुष अर्धे यज्ञथा सविधानशुक्रसोदयिहावाह चिकित्वाञ्जनम् वित्रम् गोधारमद्रुहम् धूमये तुम् विभाव जज्ञानाम् हेतुमीमहे अग्ने निपाहि नस्त्वम् रतिष्मते बलिषतः विन्धि द्वेषः सहस्कृता अग्निः प्रत्ये न मन्मदाशुम्भा नस्तन्वा अं स्वाम् कभिर्विप्रेण वावृधे भूजो न वा न बाहुवेम्बा बतसोतिषम् अस्मिन् यज्ञे स्वध्वरे सोमिन्द्रमहस्तमग्ने शुक्रेण शोदिषा देवैरासत्सि बहिषि यो आग्निम् तन्मोदमे देवम् मत्तः तस्मादितज्वसु अग्निर्मोर्धतिपः परिपृथिव्यायम् ्रेताम् ति उदेषु च यस्तव सुख्राभ्राजम् प्रजीरते तव ज्योतीम् षड्जः ईशि शेवार्यस्यैदात्रस्याे स्वपतिः स्तोम् तव कर्माणि वामणे स्वामि चित्तिभिः अग्ने सख्यम् अग्निस्तुज व्रजतमस्तु प्रसृज कविः सुचीरोचराहूतः उतत्वाधीतजो मम वर्धन्तु विश्वा अग्ने सख्यस्य बोधिनः घास्याः सर्वसुपस्यग्ने विभासुः अनुमे धृतव्रमुद्राजे वसिन्धवः गिरो जीरते युवानम् विश्वजम् कविम् विश्वालम् पुरुपेपदम् अग्निम्भाविमन्नाभि यज्ञानाम् रच्ये परम् विश्वम् भागभैरवे सोमैरिषे मात्रे अजवग्नेत्रे अपि चरिता भूजु सन्द्या तस्मै पावकरुया ीरोह्यस्य मानजाग्रिविश्वराः अग्नेः सीतज सीज्यपि पुराग्नेभ्यः पुरा मृद्रेभ्यः कवे प्रणायुपसोजिरा आधारे अग्निमिन्धते स्त्रिमन्दिहिरासखाः स्तम् ऋतुस्वरू येषामिन्द्रोजुपासखा अयुद्धयद्युधामिन्द्रोजुपासखा आबुन्दम् अवग्राहे शृन्विरे प्रतित्वा समसेव तद्गिरावत्सो नयो दिशत् यस्ते सत्र त्वमाचरे उदत्वम् श्रुयसेवष्टिवक्षिषत् यद्वीरयासि वीरुतत् यदायित्या जिकृतिन्द्रः स्वयुरुपा रथीता मो रथीनाम् ्वाभिन् विश्वगृहाृ भवानः शुश्रवस्तमः अस्माकम् सुरथम् पुर इन्द्रशोतु सादले नयम् धूर्वन्ति धूर्तयाः विद्यामदे परे त्रिरोलम् देशक्रधावने गे मेदिन्द्रगोपतः ैश्चिद्यन्तो अद्रिवो स्वाग्निनाः विवक्षेहसाः ऊर्वासहस्राः सुः सदा यदिरुभ्योऽद्माहित्वा धनञ्जयम् आदारिहम् यथा ग प्रदुभन्ति द्वागवे मन्दम् सुधृष्णविन्दवः आत्त्वा पणिम् यजीमहे यस्ते रेवान् अदासुरिप्रमवर्षमगच्छस्य नो मेदाभर युभवत्वाभिचक्षते सखाजेन्द्रसोम्याः उष्टावम् तो यथा वसुम् ूजायमाम् दुर्मारुणम् च क्रिया बुधा भवे रामः यच्चेद्धि अभिव्यथजगन्वाम् सोहमन्महि गोदायिनिन्द्रबोधिनः जव्राजोरमा च वसवते पुष्पसित्वा सहसाोद्रमिन्द्राः जगाजतपुरुपते युधि अभित्वाम् श्रीजामि पीतले रम्भाव्येवम् त्वाोपरस्वानादन् माम् ब्रह्मद्विषोसा भवेराधे सरो गौरो संसत्सवोच अमीबद्धुवः सुगमिन्द्रः सहस्रबाह्वे अत्रा देदिष्टपौंसम् सत्यन्दत्वर्वशेषगौविरा नो अन्नबाह्यम् यातुर्वनेशी तरणिम् भोजनानाम् धृतंवाजश्च गोपालः समानमुप्रसंशिषम् ु दुग्ध्यारुधम्भो मे यः गोभ्यो निवे यद्नः प्रेतिरक्षसि मातकरिन्द्रमृगय लभ्रम् जिद्धित्वावदः कृतम् शृण्वे अधिक्षमि जिगाहद्विन्द्रते कवे दुदासु कीर्तयो सन्धप्रशस्तयः इन्द्रमृणजाभूरिषु विमयाहित्वावतमुग्रादभि भङ्गिना तस्मादहमिरीषहा मा सख्यसो नमानि देवापुत्रस्य प्रभूवसो आवृत्वत् भूतु देवनाः को मर्या अमीति दस्सखासखायमब्रवीत् जहारो अस्मदीषते एमारे वृषभास्ते सिं बन्भूर्यायः स्वधीव जीवन् आतजेतापोयुजाहरी गृभे सुद्रथापरिपाधो जहीरुधाः पुरस्वान् ददाभरा यद्वीरान्द्रयश्च वसस्पार्घन्दभरा यस्य ते विश्व वसस्पार्दलाभरा भद्रपि वादयमनाः ओ हरिः ओ सदक्रदो सदक्रतो येभिर्गृहन्ति कालवाः सुनीचो घासमचोजम् मरुतो जमा निग्रवाञ्जद्रुभाः तथा लो गोपस्व वत्सु वीर्यमादित्यजूतयेधे सदा राजा पूर्वस्विहाम् दानमीमहे स्वधानमभीर्वम् ईसानम् राजयीमहे तस्मिन् विरायोरयो विश्वा अभीरवः स प्तजः पुरुपसंवदा यह राजः सुताम् यस्तेमघोबरेण्यो जयिन्द्रवृत्रहम् दामः या दधनि स्वा अन्द्रधज हृत नासु दुष्टराः यो जुष्टरो विश्ववारस्रवायो वाजेष्वस्ति भरुता ष्टसमना पुराश्वयोतरा सया परिवस्य माम् वित्वानू द्विगोपादे ्राभजसखा विश्वेत्सवेतः विश्वे मानुषा युगेन्द्रम् भवन्ते तेषतश्रूतः पुरस्सारामघवाहाभूवत् अभिवो वीरमन्दसोमेषु गाय युगा महाविदेतरम् स्तर्वसु दधिर्वाजेषु पुरुहूतपादिनम् नूनमथ विश्वेराणि वः महसु ओ अलिषेस्तवा महे मी ऋषेः अरङ्गमाय जग् यज्ञेभिर्विश्वार्वा मनुदा नियच्छाये त्वा ने आम् ते अज्ञमाभिर्गिरीराम् श्रुभिरे राम् जम्म विश्वनीनाम् गृह्णन्तु विश्वनीनाम् प्राध्वरे अभङ्गम् अतीरामिन्द्रमिष्टाभरा जी अस्माभ्याम् युजवम् चोदजन्मदे ज्येष्ठवम् चोदरजन्मदेतसुसारित्रेष्ठ ्राचुरिन्द्रहन्तम् भुज्यम् वाजेम् आसरे दुरैवः पूर्तमादले यथा जिद्वसो अश्चृद्राधिकारीदेश्यायुष्यादले षष्टिम् सहस्राश्वयुगासमुष्टासतिम् सदा द्यावे दसृषीणाम् दर्वाम् सहस्रा द्याद्राजोवाहारास आसवाः मात्रा नेवाः संस्कृतश्रव सक्राधसः रथं हिरण्ययन्त धन्वम् हृष्टः सूर्यभूतमकृतस्रवाः आनो वायो महेदने चाहि मखा जकादशे वयम् हिते च कृमा भूरि धावने सद्य चिन्मही तावने यो हे निर्वः देवस्तनाम् येभिः सोमेभिः सोमशुद्धिः सोम पायशुक्रौरवाह यो वानामन्दचेत्रम् धावने अेण गुणे सुभृतराजशुक्रतो शिरस्वराद्वयोजो तस्मा अश्रेषितम् देवेषितं तत् अध प्रियमि शिराज षष्ट्यम् सहस्रासनम् अधस्वामिन्द्रकृष्णा वो न यूथमुपायम् जिवध्राजमुपमायम् तिवध्राजः अधयश्चारथे गणेश नमुष्ट्राम् अधिकृदते अधस्विने रुपिं सतिम् सदा सनम् दासे बल्भूते विप्रस्तरुक्षादधे दा देवान विवेन्द्रगोपामदम् द्विदेव गोपाः स्यायोष महीत्रादीचीवसा मह्यम् विनीयते मही वो महतामगो मरोनमित्रुषेः जमादित्या अभिद्रुहो रक्षधाने मघम् न सदनेहसोः बभूतयः सुभूतयो बभूतयाः अघा नामानित्यासो अपाकृतिम् प्रक्षावयोजसोपरिव्या अस्मे सम्मा यच्छता नेकसो बभूतलः सुभूतयो बभूतराः याः अस्मे अधिसम्मतप्रक्षावयोनयम् तः ेनसो बलभूत्या मनामहेनेवसो भूतयस्वभूतयो बभूतयाः यस्मारा सदक्षयम् जीवातुम् च प्रचेतसः मनो विश्वस्य हे ध्यादै सदेनेरसो भूतजस्वभूतयो भूतयाः दुर्गामीरचो यथा स्यायेन्द्रः शर्मन्द्रा नित्यानाः भुतापस्रमेहसो बभूदयः सुबूतयो भूतयाः परेयणो युष्मादत्तस्य वायति अथे ्रह्मसो च अदेतनादेहसोभूतय सुभूतयो भूतयाः न तम् जेग्मन् सनत्यजो न स्वारित्य सोपराध्वेहसोऽभूतयः सुभूतयो भूतयाः जुष्मेवाविष्मसीर्घम् जयि बह्मसु यूलम् महोनयेन सो यूलमध्वा दुरुक्षेन सोऽपभूतयः सु भूतयो भूतयः अधिजन्मपुरुष्यत्वति दुःसर्म य मात्रस्य रेवतोजम्बूरस्य चानेयसो बभूतजस्वभूतयो बभूतयाः श्रद्देवाश्रमसरणम् यद्भद्रम् यदातुरम् विभाजद्वरू तस्मासुभियम् तानेयसो बभूतयस्वभूतयो बभूतयाः त्याह भैक्षदाधिकूलाः तीर्थमर्ूनो नेभवनेयोः बभूतयः सुभूतयोः भूतयाः नेहभ्रक्षस्वि नेहाभयैनो भयाभूता वे भद्रम् धेन वेभीराय दश्रवश्ये नेहसोः बभूतयस्वभूतयोः भूतयः यथाभिर्यम् देवासो अस्ति दुःश्रुताम् ऋते दृश्य वाच्यारे अस्मद् धातमानेहसोः बभूतयस्वभूतयोः बभूतयः भ्यं यच्छास्नेहि गर्दिवः विधाय तद्विभावय परावहेहसोपभूतयः भूतयोपभूतयः निष्क्रम्बाग् गर्दिवः ष्वभ्यम् सर्वमाप्ते परीलग्मस्य नेहसो बभूतयस्वभूभ्यो भूतराः रतन्नाय सेतम् भागमुपसेतुषेद्भिधायशोषो दुष्वभ्यम् महानेहसो बभूतयः सुभूतयो बभूतराः यथा कलाम यथा सभम् यथा ऋणम् सम् नयामसि देवादुष्वम् सर्ववाप्ये सङ्गयामस्य नेरसो बभूतरस्वभूतयो बभूतयाः अजेष्माद्रास नाम च भूमानाः रजोभनम् पुषो यस्माद्व्यानमेष्माभदृच्छत्मेव भक्तिमयसत्सुमेधायेनतासन्तरन्ति ीर्भवास्य वदाहरसो देव्यस्य किम् दवीन्द्रस्य सख्यम् जोषाणस्रौष्ठे वधुरमनुराजगद्याः सोमृता अभूमागन् वज्योतिरवीरामदेवान् किम् मौनमस्मान् जिह्मृतमर्जस्य वे सुसेवाः वदक्यपुरुषंसधीरः प्रणायुर्जीवसे सोमतालीः किमेवा गीता यशस पुरुषभोरन्न गावः समाहपर्वसु ु विश्वरित्रायन्ति व्रतक्षयगीपस्य सोनः अथाहिसो ममन्ये हेवाङ्गी व्रचारापुष्टिमञ्चिरेण देवनसा सुक्षीमहि राजः योसराणि सोमराजन्द्रवसि तव स्वतिव्रजा आस्तस्य विद्धि अलत्रिलक्रबुधमण्डलिम् लो अर्जो अर्जुनानुकामम् परादाः स्तन्नः सोम गोपागात्रे गात्रे निषसस्थाः नृचक्षाः यते वयोम्रविनामब्रदा निजनो मृणसुषाले भवस्याः मृदुदरे न ययो मानऋष्ये धर्यस्वीतः यम् न सोऽ यस्मेतस्मा इन्द्रम् प्रतिरमेण्यायुः अपत्या अस्मायुरागन् भयत्र प्रतिलम् आयुः ो मध्यो मध्यास्मिन् लेदेशस्य मदौ स्याम त्वन्दो मिदर्भिस्व्यावापृथिवी आचन्ध तस्मि तैन्दो हविषा विधेमदयं स्यामपतयो रयीनाम् यो देवा देवोचका नो मानो निद्राली वयम् सोमस्य विश्वः प्रिया स सुबीरासो वीरतमावदेवान्न सोम विश्व प्रयोधा सों सुब्रिया वीरामिलक्षाः भिदे पुरस्तात् हिप्लव सुराद्रिभ्यो मघवाः पुरो सहस्रे श्रीक्षि स्वाणी प्रतीकार अस्य बिन्विरे आ त्वारयन्द्रगिर्वपो न जिह्नन् अनन्दीरराधसे अनेहसम् प्रतरणम् विवक्षणम् मध्वस्वारिष्टमीम् आयसा मन्दता न किरासी न प्रक्षुद्रे वत्मना दृषत् आ नस्तो बहुपद्रवद्भिनो अशो न सोदृभिः स्वधावन् स्वजयन्ति वीरम् नोपसेक्षीतापसुम् यद्ध नूनम् यद्वा यज्ञे यद्वा पृथिव्यावधि अतोमासुभिर्महेमत अतो बुग्रमुग्रेभिरागहि अजिरासो हर योजयेत आसभोपा जिवप्रसक्षिणः तेभिरपत्यम् मनुषः परीयसेभिर्विश्वाम् स्वगृहे येदा भवतस्तीमह इन्द्र सुन्द्रस्य गोमतः यथाप्रावो मघभन्वे ज्यातिथिम् यथा नीतादिथिं धनेः यथा कण्मे मघवन्मरस्य विथाः भक्तेदसंव्रजे यथा वो सर्जे अस नेष्वन्द्रगो मध्यं जदल्